श्रीहरिः नमः अथ चत्वारिंशोऽध्यायः अक्रूरमुवाचा <laughs> न तोऽस्म्यहं त्वा किल हेतुहेतुं नारायणं पूरुषमात्यमव्ययं यन्नाभिजातादरविन्दकोशात् ब्रह्माभिरासीत्यतयेक्षलोकः महान् जातिर्मन इन्द्रियाणि सर्वेन्द्रियायार्था विबुधाश्च सर्वे ये केतवस्ते जगतोऽङ्गभूता नैते स्वरूपं विदुरात्मनस्ते ह्यजातयोनात्मतया गृहीताः अजोऽनुबद्धस्स गुणैरजाय गुणात् वेतनते स्वरूपम् तां योगिनो यजन्त्यद्धा महापुरुषमीश्वरं साध्यात्मं साधिभूतं च साधिदैवं च साधवः त्रय्या च विद्यया केचित्त्वां वै, वै यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया एके त्वा किल कर्माणि सन्न्यस्योपशमं गताः ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् अन्त्ये च संस्कृतात्मानो विधिना अभिहितेन ते यजन्ति त्वन्मया स्त्वां वै बहुमूर्त्येकमूर्तिकं <laughs> त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणं बह्वाचार्यविभेदेन भगवान् समुपासते सर्वजन्ति त्वां सर्वदेवमहेश्वरं येऽप्यन्यदेवता भक्ता यद्यप्यन्यधियः प्रभो यधा त्रिप्रभवानद्य पर्जन्यापूरिताः प्रभो विशन्ति सर्वतः सिन्धुं तद्वत् रजस्तमयिति भवतः प्रकृतेर्गुणाः तेषु हि प्राकृता प्रोधा आब्रह्मस्थावराधयः तुभ्यं नमस्ते स्त्व दृष्टे सर्वात्मने सर्वधियां च साक्षिणे गुणप्रवाहो यमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु अग्निर्मुखं तेरङ्घ्रिरीक्षणम् सूर्यो न भो नाभिरतो कुक्षिर्मरुत्प्राणबलं प्रकल्पितं रोमाणि वृक्षोक्षतयः शिरोरुः मेघापरस्यास्ति न कानि निमेषणं रात्यहनि प्रजापति मेड्रस्तु वृष्टिस्तव वीर्यमिष्यते तवि पुरुषे प्रकल्पिता लोका सपाला संकुलाः, यता जले संचिहते जलौकशोऽपि उदुम्बरे वामस कामनोमये यानि यानि करूपाणि क्रीडनार्थं बिपर्षिहे तैरामृष्टसुषो लोका मुदा गायन्ति नमः कारणमत्स्याय प्रलयाब्धिचराय च हयसीष्णे नमस्तुभ्यं मधुकैढभमृत्यमे अकूपाराय बृहते नमो मन्धरधारिणे क्षित्युत्तरविहाराय नमः सूकरमूर्तये नमस्तेऽद्भुतसिंहाय साधुलोकभयापहा वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च नमो भृगूणां पतये दृप्तक्षत्रवनश्चिदे नमस्ते गुवर्याय नमस्ते वासुदेवाय नमः सङ्कर्षणाय च प्रद्युम्नाय अनिरुद्धाय सात्वतां पतये नमः नमो बुद्धाय शुद्धाय दैत्यधानवमोहिने म्लेश्चप्राय क्षत्रहन्त्रे नमस्ते कल्किरूपिणे भगवन् जीवलोकोऽयं मोकितस्तव मायया अहं ममेत्य सद्ग्राहो भ्राम्यते अहं च आत्मात्मजागार धारार्थस्वजनादिषु भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहं द्वन्द्वारामस्तमोविष्टो न यतो भूतो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः अभ्येति मृगतृष्णान् वै तद्वत्त्वाहं पराङ्मुखः नोत्सहे कं कृपणति कामकर्म कथं मनः रोदुं प्रमादिभिश्चाक्षैर् ह्रियमाणम् इतस्ततः सोऽकं दवाङ्ग्युभगतोऽस्म्य सतां धुराभम् दच्चाप्यकं भवदनुग्रहगीशमन्ये पुंसो भवेत्यर्हि संसरणापवर्गः त्वय्यब्जनाभसतुपासनयामति स्यात् नभोविज्ञानमात्राय सर्वप्रत्ययहेतवे पुरुषे सप्रधानाय ब्रह्मणेनन्तशक्तये नमस्ते वासुदेवाय सर्वभूतक्षयायच च नमस्तुभ्यं प्रपन्तं पाहि मां प्रभो इति श्रीमद्भागवते महापुराणे दशमस्कन्दे पूर्वार्ते अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं। गोविन्द गोविन्द सद्गुरुनाथमहाराज की जय